नमो नमः सर्वेषां शुभाशयाः अस्तु आरम्भं कुर्मः अस्तु जयन्ती भगिनी आरम्भं कुर्मः वा अस्ति वा प्रार्थनाया प्रार्थनां वदतु कृपया एकनिमिषम् वेण पाताय भ प्रतिबोधिताम् भगवता नारायणेन स्वयम् व्यासेन घ्रतिताम् पुराणमुनिनाम् मध्ये महाभारतम् अद्वैतामृतवर्षिणीम् भगवतीमष्टादशाध्यायिनी अम्ब स्वामनुसन्दतामि भगवद्गीते भवद्वेषिणी नमोऽस्तु ते व्यासविशालबुद्धे पुल्लारविन्दायतपत्र नेत्र येन द्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमय प्रदीपः प्रपन्नपारिजाताय तोत्रवेत्रैकभपाणये ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः सर्वोपनिषदो गावो दोक्ता गुरुपालनन्दनः पार्थो वत्स सुधिर्भोक्ता दुग्धम् गीतामृतम् महत् वसुधेवसुतम् देवम् कं सचानूरमर्दनम् देवकी परमानन्दम् कृष्णम् वन्दे जगद्गुरुम् धन्यवादाः <coughs> पुनः एकवारम् सर्वेषाम् स्वागतम् अस्तु अधुना किं कुर्मः गतसप्ताहे वयं लङ् लकाराणां तस्मात् प्राक् अपि लङ् लकाराणाम् अध्ययनं कुर्मः एकवारं लङ् तालिकां पठित्वा अग्रेसरेम पश्यन्तु सर्वे अत्र अस्ति कर्तरि लङ्लकार परस्मैपदम् आत्मनेपदम् अस्तु भारतमहोदय भवान् पठति वा एकवारं तालिका स्त्रीं दृश्यते वा स्त्रीं दृश्यते वा एकनिमिषम् अधुना दृश्यते एकनिमिषम् हा अधुना दृश्यते वा न दृश्यते कृपया कर्तरि लङ्लकारः प्रस्मै पदम् अपठत् अपठत् अपठताम् अपठन् अपठः अपठतम् अपठत, अपठत, अपठत अपठम् अपठाव अपठाम कर्तरि लङ्लकारः आत्मने पदम् अभाषत अभाषेताम् अभाषन्त अभाषथाः अभाषेथाम् अभाषध्वम् अभाषे अभाषावहि अभाषामहि हा सम्यक् अधुना अहं कानिचन वाक्यानि वदामि सर्वे कृपया अवधानं ददातु हा पश्यन्तु सः अपठत् सः अपठत् सः पठति स्म अपठत् सः पठति स्म तौ अपठताम् अपठताम् वदतः पठतः तौ पठतः ते क्षम्यतां तौ पठतः स्म तौ पठतः स्म ते अपठन् ते अपठन् ते पठन्ति स्म अहं किम् उक्तवती अवधानं सर्वेषां सः अपठत् सः पठति स्म तौ अपठताम् तौ पठतः स्म ते अपठन् ते पठन्ति स्म अग्रिमे अपि अहं वदामि त्वम् अपठ त्वम् अपठ त्वं त्वं पठसि स्म त्वं पठसि स्म त्वं युवां युवाम् अपठतं युवां अपठतम् युवां पठतः स्म युवां पठतः स्म यूयम् अपठत यूयम् अपठत यूयं पठथ स्म पठथ स्म अपि वदामि अहम अपठं अहम अपठं अहम पठा स्म आवा अपठा आवाम पठाव स्म वाम वाठा स्म अच्छे वा अहं किम् उक्तवतीति स्पष्टीकरणार्थं द्वयमपि भवति खलु तत्र भूतकालदृष्ट्या तत्र प्रथमं वाक्यम् अपठत् तत्तु लङ्लकार भूतकाल तदा उक्तवती अनन्तरम् उक्तवती सः पठति स्म इत्युक्ते अत्र स्म स्म एतस्य योजना मया कृता स्म एतस्य योजना मया कुत्र कृता तत्र सः पठति इति लङ् लकारात् लट् mm. लकाररूपम् उपयुज्य तदा अहं स्म इति उक्तवती इत्युक्ते mm. सः अपठत् स्थाने अहम् उक्तवती सः पठति स्म इत्युक्ते स्म इस् एडिक्ट् टु द पास्टेन् वर्ड् स्म इङ्ग् देन्स्ट् पठति लट्लकार तत्र अहं स्म इति उपयोजितवती तेन किं भवति अर्थदृष्ट्या लङ्लकार वा भूतकालस्य बोधनम् अद्य दिनस्य एषः एव विषयः स्म इत्युक्ते स्म उपयुज्य स्म निष्कासयत स्म योजयत इत्युक्ते स्म योजयित्वा वाक्यं कथं भवति स्म एतस्य निष्कासनं कृत्वा वाक्यं कथं भवति इति अद्यदिनस्य विषयः अस्माकं पुस्तके अस्ति तत अस्माकं पुस्तके स्म इति विषयः अत्र पश्यन्तु वयं सर्वे कृतवन्तः लङ्लकार आत्मनेपदी परस्मैपदीरूपाणि अदुना अग्रिमे अस्माकं पुस्तके एव अस्ति तत्र स्म प्रथमः तु संवादरूपेण दत्तमस्ति पितामही बालक द्वयोः संवाद अधुना राधा भगिनी तत्तु पितामही विषये पठति वा बालकः बालक हा बालकः ओगस्ट् महोदय पठति वा द्वयोः मिलित्वा सम्भाषणम् आं भगिनि एतत् सम्भाषणम् उच्चैः अवगच्छत च वत्स अहं ह्यः एकां कथाम् अश्रावयम् स्मरसि किम् आं स्मरामि तर्हि वद कः कः किं किं करोति स्म सञ्जयः श्रावयति स्म धृत् धृतराष्ट्रः शृणोति स्म अर्जुनः दुःखम् अनुभवति स्म कृष्णः बोधयति स्म सम्यक् कृष्णः किं करोति स्म कृष्णः पाण्डवानां मार्ग, मार्गदर्शनं करोति सर्वेषु उत्साहं पूरयति अश्वानं परिचारणं करोति स्म सर्वान् युद्धीतिं बोधयति रथं चालयति स्म अर्जुनस्य रक्षणं कुरुते सम्यक् धन्यवादः अत्र सम्भाषणे किम् अस्ति पश्यन्तु तत्र कः कः किं किं करोति स्म इति पितामही पृच्छति तदा करोति स्म करोति इति कालस्य बोधनम् अधुना किं भवति तत्र करोति स्म अनेन किं भवति वर्तमानकालिकैः धातुरूपै सह स्मपदस्य योजना स्मपदस्य प्रयोगः भवति तर्हि किं भवति तानि रूपाणि किं बोधयति भूतकालं बोधयति हा अग्रिमे पश्यन्तु सञ्जयः श्रावयति स्म इत्युक्ते भूतकाले सञ्जयः श्रावयति स्म तद्भूतकालस्य बोधनम् हाँ दिव्यदृष्ट वे जानी कथा दिव्य दृष्टिया सह दु, दिव्य दृष्टिया सह सर्व कि यटना त्रवृद्धा सर्वेमं धृतराष्ट्रम कौती सज्जय हाँ दिव्यदृष्टिया साधन तदा सजय श्रावती स्म धृतराष्ट्र शुणोती स्म जय अश्रावत धृतराज अश्रुण् अदुना अर्जुन दुखम अमी वद अर्जुन प्रथम अद्धब सेनोरभ्ये रथम स्थापय में चुत तदा दथम आगछति तदा अर्जुन विषादुख सर्वान् दृष्टि सर्व अवलोकनम अर्जुनेन कृतं तेन सह दुःखम् अनुभवति दुःखम् अनुभवति स्म तदा किं भवति भगवद्गीतायाः जननं तत्र कृष्णः बोधयति स्म तत् अपि भूतकालं दृश्यते पितामही अनन्तरं कृष्णस्य विषये पृच्छति कृष्णं किं करोति स्म तद्भूतकाले भूतकाले एषा घट, घटना घटिता तदा पाण्डवानां मार्गदर्शनम् करोतिस्म स्म अकरोत् सर्वेषु उत्साहं पूरयति स्म अपूरयत् हा परिचरणम् अश्वानां परिचरणम् अश्वानां परिचरणं करोति स्म अकरोत् सर्वान् युद्धनीतिं बोधयति स्म अबोधयत् अत्र भूतकालम् हा युद्धनीतिं बोधयति केवलम् उपदेशप्रवणभगवद्गीता इति नास्ति वयं जानीमः ह तत्र एकं एकः तज्ज्ञजनः तेन एकं विवेचनं कृतं तत् मया तत् विवेचनं पठितमस्ति तत्र एका रचना तत्र ज्ञानमूलकर्मप्रधानकगीता इति हा ज्ञानमूलक तत्र मूलतः तत्र ज्ञानमस्ति परन्तु कर्मणः कार्यशीला वयं कार्यशीलाः भवामः कार्यप्रवणार्थं गीता इति अस्तु अत्र रथं सारथ्यं सः एव स्वीकृतवान् आसीत् श्रीकृष्णः रथं अर्जुनस्य रक्षणं कुरुते कुरुते इति आत्मनेपदीरूपं हा अर्जुनस्य रक्षणमपि श्रीकृष्णः कृतवान् आसीत् युद्धप्रसङ्गे युद्धानन्तरमपि सर्वेषु स्थलेषु तत्र दृश्यते सः अर्जुनस्य अपि अन्येषां पाण्डवानामपि सः रक्षणम् कृतवान् आसीत् एतत् सर्वम् हा इत्युक्ते वर्तमानकालिकैः धातुरूपैः सह स्म पदस्य स्म इति पदस्य प्रयोगः तेन भूतकालम् बोधयति अस्तु अग्रेसरेम अत्र सम्भाषणम् पठित्वा प्रश्नानाम् उत्तराणि इति एकः भागः अम्बिकापतिमहोदय भवान् भवान पठतिवा। तत् अत्र कः उपरि उपरितनं सम्भाषणं पठित्वा प्रश्नानाम् उत्तराणि लिखत कः श्रावति स्म उत्तरं कः स्रावति स्म कुत्र अस्ति न पश्यामि तत्र बालकः पितामही पृच्छति कः कः किं किं करोति तत्र बालकः उत्तरं ददाति तत्र अस्ति पश्यतु एकां कथाम् अस्रावयन् अश्राव्य श्रावसि किम् आं स्मरति बालकः श्राव श्रावति स्म बालकः किं वदति सञ्जयः श्रावयति स्म कः श्रावयति स्म उत्तरमस्ति सञ्जयः श्रावयति स्म हा अस्तु अग्रिमे अग्रिमे पठतु कः दुःखम् अनुभवति स्म अर्जुनः दुःखम् अनुभवति स्म सम्यक् अग्रिमे कृष्णः सर्वेषु किं पूरयति किं पूरयति सर्वेषु अस्माकं पूरयति स्म उत्साहं पूरयति स्म अग्रिमे पश्यतु बालकः सम्यक् कृष्णः तदा कृष्णः पाण्डवानां मार्गदर्शनं करोति स्म सर्वेषु उत्साहं पूरयति स्म कृष्ण सर्वेषु किं पूरयति उत्साहं पूरयति स्म एवं खलु अस्तु अग्रिमे अग्रिमे चतुर्थी कः कथं कः रथं कः रथं चालयति कृष्णः श्रीकृष्णः रथं चालयति श्रीकृष्ण अग्रिमे अग्रिमे अग्रिमे अग्रिमे कृष्णः कस्य रक्षणं कृते स्म कृष्णः पाण्डवानां रक्षणं कृते पाण्डवानां तु सत्यं परन्तु एतस्मिन् परिच्छेदे अर्जुनस्य रक्षणं कुरुते इति अस्ति खलु रक्षणं कुरुते स्म अग्रिमे कः कथां खता, शृणोति स्म कः कथां शृणोति स्म अत्र पश्यतु अर्जुनः कथा तत्र किमस्ति पितामही अस् आसीत् खलु पितामही उक्तवती एकां कथाम् अश्रावयम् स्मरसि किम् बालकः वदति आं स्मरामि इत्युक्ते पितामही तद् बालकः शृणोति पितामही श्रावयति इत्युक्ते एकः कथां शृणोति स्म बालकः कथां शृणोति स्म तत्र पितामही पिता हा पितामही तत्र बालकः तत्र अस्ति परिवारे तत्र पितामही बालकान् आहूय तान् कथां श्रावयति हा इति दृश्यं तत्र दृश्यते ततः बालकः कथां शृणोति स्म पितामही श्रावयति स्म इति कः इत्युक्ते बालकः बालकः कथां श्रुणोति स्म अस्तु जी सम्यक् अस्ति सम्यक् नु धन्यवादः नु। नुु। किञ्चित् न न नु परन्तु तत् बहुदिनानन्तरं भवान् अत्र अस्ति खलु सम्यक् अस्ति चिन्ता मास्तु उत्तमं हा अग्रिमे जयन्तिभगिनी भवती करोति वा अस्ति वा जयन्तिभगिनी आं बेनि क्षमिता यतोदाहरणं पुरतः विद्यमान धातुं पठित्वा वाक्यानि रचयत अर्जुनः धनुर्विद्यां जानाति स्म ज्ञा <coughs> ज्ञादातु अतः जानाति इति भीमः <coughs> बहु खादति <आ>, स्म <coughs> दुर्योधनः दुर्योधनः एष्याम mm. करोति स्म okay. कृष्णः लीलां दर्शयति स्म mm. भीष्मः गौरवाणां पक्षतः mm. युद्धं करोति स्म mm. ः सर्वदा कूटम् अत्र जयन्ती भगिनी अत्र वाक्यमस्ति भीष्मः कौरवाणां पक्षतः युद्धं करोति अत्र पश्यन्तु भीष्मः तत्र कथायाः विषये भीष्मः पितामहः महान् अस्ति सः तस्य कर्तृत्वमपि महानमेव महन्तं कर्तृत्वं तस्य परन्तु सः जानाति अधर्मी सर्वे कौरवाः तरी तेषां पक्षतः स युद्धं करोति तदा एव महाभारते व्यासमुनेः तत्र एकं वचनमस्ति अर्थस्य पुरुषोदासः इति हा इत्युक्ते संपन्नत अधर्मी अधर्मीजनानां कृते सः तस्य राज्य राज्यविषयक एव तस्य चिन्तनं राज्य राज्यस्य एव मया करणीयम् अन्येषां किमपि न जानामि इति अतः <coughs> तत्र भगवद्गीता तत्र भगवद्गीतायामपि प्रथमं प्रथमे अध्याये यदा भवति तस्मरति तत् तस्य सञ्जनयन हर्षं कुरुवृद्धः <coughs> पितामहं तत <coughs> तत् प्रथमं देट् पर्टिक्युलर् शङ्खस्य तेट् नादं केन कृतं विश्वपिताम युद्धस्य आरम्भम् इति अस्तु अग्रिमे पठतु कुनिः सर्वता सर्वदा कूटं रचय रच्च, रचयति स्म रचति mm. रचयति स्म mm. mm. uh, गौरवाः कौरवाः पाण्डवान् पाण्डवान् न uh, इच्छति स्म mm. uh, पाण्डवान् न इच्छन् इच्छ पाण्डवाः न इच्छन्ति स्म धनबेनि पाण्ड कौरवाः पाण्डवान् पाण्डवान् न इच्छन्ति स्म इच्छन्ति युधिष्ठिरः सत्यं ब्रूय ब्रूयति स्म तत्र तत् अस्ति ब्रूते इति अस्ति आत्मनेपदीरूपं ब्रूते स्म ब्रूते स्म तत् उभयपदी अपि अस्ति ब्रवीति अपि रूपं निष्पत्ते परस्मै पति अब्रवीत् इति अपि अस्ति खलु अब्रवीत अब्रवीत् अर्जुनः भाष्यते स्म भाषते भाषते इति रूपं खलु भाषते भाषते क्षम्यतामेव सैनिका सैनिकाः लो सैनिकाः लोकयति स्म वागिनी सैनिकाः लोक, लोक काहा काहा लो, तर, तत्र आ, लो, लोक अवलोकनं सैनिकाः लोकन्ते तदपि आत्मने लोके लोके हा लोकते सैनिकाः सन्ति खलु ते इति तत्र भाषते स्म सैनिकाः लोकन्ते स्म अधुना अग्रिमे धन्यवादः उत्तममस्ति धन्यवादः अग्रिमे उदाहरणानि सन्ति तत् सामान्यतया परिचयात्मक उदाहरणानि सन्ति तं प्रति अपि वयम् अद्यदिने एव गच्छामः अनन्तरं किञ्चित् मौखिकरूपेण अव अपि स्म एतस्य अभ्यासं वयं कुर्मः परन्तु तस्मात् प्राक् एतत् सर्वं युद्धविषयकमहाभारतविषयकगीतायाः विषये वयं पठितवन्तः अतः तदाधारेण एव अद्यदिनस्य कथा अतः कथायाः पठनं प्रथमं कुर्मः अनन्तरं पुनः एकवारं स्म इति विषयं प्रति आगच्छामः अस्तु तत कथायाः पठनम् एकवारं कुर्मः अस्तु हा, हा।, हा। भारतमहोदय भवान् भा, आरम्भं करोति वा पठनम् भगिनि आचरणमेव श्रेष्ठं कदाचित् कश्चन विद्वान् कश्चित् कश्चित् साधुं द्रष्टा अवदत् मान्यावर मया पश्चत्रिंशत् वर्षाणि hmm. वर्षाणि यावत् संशोधनं hmm. कृतम् कुछ, कृष् कृष्णः ऐतिहासिकः ऐतिहासिकः पुरुषः एत पौराणिकम् उत उतपौराणिकः उत उतपौराणिकः इति मम संशोधनस्य विषयः यदि यदि सः ऐतिहासिकः स्यात् दर्शित् तस्य जन्मस्थानं किं कस्मिन् कालखण्डे सः आसीत् इत्यादिकं विवेक्तुं मया प्रयासः कृतः भागवतमहाभारतादिकम् mm. mm. अन्ये ग्रन्थाः शिलाशासनादीनि mm. च मया बहुधा परिशीलितानि परिशीलितानि mm -hmm. एतस्य सर्वस्य अनन्तरमपि अहं किमपि स्पष्टतया निर्णेतुम् असमर्थः कृष्णस्य ऐतिहासिकताविषये भवताम् आशय कः इति पर्याप्तं प्रथमं परिच्छेदम् अस्तु अधुना स्वशब्दैः किञ्चित् वक्तुम् इच्छति वा um. um. <laughs> विषयः कः सारी भगिनि आङ्ग्लभाषायामपि वक्तुं शक्नोति केवलं तत्र अहं किम् इच्छामि विषयः कः अस्ति हा तत्र विद्वानः विद्वान् मनुष्यः साधुं दृष्ट्वा सः वदति विद्वान् इत्युक्ते तत्र स्कालर्ली अप्रोच् तस्य हा अतः सः किम् पश्यतु मया पञ्चत्रिंशत् वर्षाणि यावत् संशोधनं कृतं सः विद्वान् हा सः वदति पञ्चत्रिंशत् पञ्चत्रिंशत् इत्युक्ते थर्टि फैव् हा तस्य संशोधनं कृतं मया संशोधनं कृतम् अधुना संशोधनस्य विषयः कः कृष्ण ऐतिहासिकपुरुषः वा आ, उत इत्युक्ते ओर् वा पौराणिकः कृष्ण इति ऐतिहासिकः पुरुषः वा पौराणिकः पुरुषः इति तस्य संशोधनस्य विषयः अस्तु हा इत्युक्ते किं तत्र ऐतिहासिक् इति वदामः चेत् तत्र ऐतिहासिकविषयाणां विषये वयं वक्तुं शक्नुमः तत्र डोकुमेण्टेशन् भवेत् अनन्तरं तत्र स्क्रिप्चर्स् अनन्तरं तत्र स्कल्प एवं सर्वं तस्य सङ्घटनम् आवश्यकं तेन एव वयं ज्ञातुं शक्नुमः अस्तु एतस्मिन् काले एषः पुरुषः तत्र राजा राजा आसीत् सः राज्यं कृतवान् आसीत् एवं सर्वम् ऐतिहासिकम् इत्युक्ते तत्र डॉक्युमेंटेशन इस् नीडेड, इति खलु परन्तु <laughs> पौराणिकम् इत्युक्ते किम, किं कथारूपेण तत्र ओरल ट्रेडिशन् इति वदामः कदा कदा तत् मौखिकीदृष्ट्या अपि पौराणिककथायाः तत्र वाचनं भवेत् श्रवणं भवति तत्र एवं सर्वं पौराणिकम् अत्र एषः विद्वान् मनुष्यः तत्र संशोधनं किं तस्य विषयः कः पञ्चत्रिंशत् वर्षाणि सो फर् थर्टि फैव् इयर्स् इस् सरिङ्ग् वाट् ऐतिहासिकः पुरुषः वा पौराणिकः पुरुषः <laughs> इति तस्य विषयः अधुना सः एव वदति पश्यन्तु अग्रिमे ऐतिहासिकः स्यात् तर्हि तस्य जन्मस्थानं किम् कस्मिन् कालखण्डे सः आसीत् इत्यादिकं विवेक्तुं मम प्रयासः कृतः मया प्रयासः कृतः तत् जन्मस्थानं भवेत् तत्र ओथेण्टिक् रूपेण तत्र ओ अत्र एव तस्य जन्म अनन्तरं कालखण्डे कस्मिन् कालखण्डे तस्य जननकालस्य कालखण्ड अनन्तरं मातापितरौ विषये एवं सर्वं तत् एतत् सर्वं मम संशोधनस्य विषये च हा तस्मात् कारणात् नस् टापि तस्मात् कारणात् सः किं कृतवान् महाभा महाभारतादिकं भागवतः अन्ये ग्रन्थाः शिलाशासनादिनि इत्युक्ते तत्र अथेण्टिक् सोर्सेस् इति आफ् आर्ट् हिस्ट्रि डाट् इत्युक्ते तत्र शिलालेखाः वा तत्र Uh, पुराणग्रन्थेषु वा हस्तलिखितानि तत्र मया बहुधा परिशीलितानि सर्वेषाम् अन्वेषणं सर्वेषाम् अभ्यासं सह कृतवान् आसीत् हा फोर् हौ मेनियर्स् थर्टि फैव् इयर्स् एतत् सर्वस्य अनन्तरमपि एतत् सर्वं कृत्वा अपि परिशीलनं कृत्वा अपि सः वदति अहं किमपि स्पष्टतया निर्णेतुम् असमर्थः विषयः कः ऐतिहासिकपुरुषः वा हा। पौराणिकपुरुषः तस्मात् कारणात् संशोधनं कृतवान् सर्वेषां ये यानि यानि वस्तूनि तत्र सन्ति तेषां सर्वेषा सर्वेषां वस्तूनां परिशीलनं सः कृतवान् परन्तु निर्णयं न जातं स्पष्टतया निर्णयं न जातं न जानामि कृष्णस्य ऐतिहासिक ऐतिहासिकताविषये भवतामाशयक इति पृच्छति अहं तु निर्णयितुम् असमर्थः ऐतिहासिकः पुरुषः वा पौराणिकः पुरुषः तत् कथायाम् एव तस्य ग्रहणं भवति तेन रचिता कथा अतः एव सर्वे जानी दृष्ट्या तत्र किमपि तत्र किं वदामः हस्तलिखितेषु वा अन्यत्र कुत्रापि तस्य किमपि न दृश्यते केवलं मौखिकी इति एव अस्ति ऐतिहासिकताविषये भवतां क आशयः अधुना भवान् वदतु साधुं पृच्छति भवतः किं चिन्तनम् ऐतिहासिक अस्ति वा पौराणिकम् अस्ति अस्तु महोदय अधुना स्पष्टमस्ति अस्तु धन्यवाद भगिनि राधा भगिनी अग्रिमे पठति वा हा भगिनि साधुः क्षणं यावत् मौनं धृत्वा पुनः अवदत् महोदय इदानीं किं वयह भवतः साधु दृश्यते वा हाँ, हाँ. हाँ. मौनम अस्ति अनन्तरम् अवद भवान् तस्य वय कति अस्ति हा वय वयः भवतः मौनम धृत्वा सम्टैम्स् पश्यन्तु सैलेन्स् स्पीक्स् अट् सैलेन् ओके सो मौनं सः मौनं धृत्वा अन्यं प्रश्नमेव पृच्छति किं वयः भवतः अस्तु इति प्रश्नः पठतु प्रायः प्रायः षष्टिवर्षाणि विद्वान् अवदत् विद्वान् अवदत् तस्य षष्टि षष्टि षष्टिवर्षाणि अस् वयः अस्ति अधुना वय षष्टि सिक्स्टि इति 60 तत्र संशोधनं पञ्चत्रिंशत् वर्षाणियर्स् संशोधनं जातम् निष्पन् निष् निष्कर्षरूपेण किमपि न प्राप्तम् इति स्थिति पठतु श्रीकृष्णः ऐतिहासिकः उत न इति विषये अनन्तरं चिन्तयाम श्रीकृष्णः ऐतिहासिकः भवेत् उत अन्यः किं तेन साध्येत् तत्र भवता hmm. तस्मात् किं भवतः जीवने परिवर्तनं प्रगतिः वा भवेत् hmm. साधु पृष्टवान् श्रीकृष्णस्य hmm. ऐति ऐतिहा ऐतिहासिक विषये चिन्तनं कृत्वा तस्य hmm. ते ऐतिहासिक आसीत् या न तेन किं साधयेत् तस्य तस्य जीवने किम प्रगति अभवत् इति पृष्टवान् साधु आम् इत्युक्ते ऐतिहासिक भवेत् ऐतिहासिक अस्ति भवतु नाम पौराणिक अस्ति भवतु नाम किम सिद्ध्यते तेन ऐतिहासिकः पुरुषः इति विचिन्त्य किं सिद्ध्यते पौराणिकपुरुष इति विचिन्त्य किं सिद्ध्यते किं प्राप्तुं शक्नोति भवतः जीवने तस्मात् कारणात् परिवर्तनं प्रगतिः वा अन्यकोपि भवति वा इति साधोः साधोः प्रश्नम् अत्र किं किं किं वदति विद्वान् तत्तु न स्यात् तदर्थं मया अन्यविदः अन्यविदः एव परिश्रमः करणीयं भवेत् इति अवदत् विद्वान् तत् कोऽपि न स्यात् किमपि प्रगतिः इति विद्वान् अव अवदत् तदर्थं मया अन्यविदः एव परिश्रमं करणीयम् प्रगति कृते अहम् अन्य परिश्रमं इति वदत् अवदत् इत्युक्ते अधुना चिन्तनम् ऐतिहासिकः वा पौराणिकः चिन्तने तस्य संशोधनदृष्ट्या तत्तु योग्यमेव परन्तु नहीं? अधुना षष्ठिः वर्षाणि इति विद्वान् अवदत् खलु अधुना अधुना तस्य चिन्तनं तु जातं परन्तु भवतः जीवने परिवर्तनं वा प्रगति वा तत् साधना एवं सर्वम् अभवत् वा तस्मात् चिन्तनात् तदा सहवदति न न तथा अन्यविधः एव परिश्रमः करणीयं यदा अहं जीवने परिवर्तनम् इच्छामि वा जीवने तत्र मार्गे मम सङ्क्रमणं भवेत् इति अहम् इच्छामि मम प्रगति मम प्रगतिम् इच्छामि तदा hmm. अन्यविधः एव परिश्रमः तस्य भिन्ना साधना तस्य कृते hmm. इति सः उक्तवान् इत्युक्ते संशोधन hmm. संशोधनं तु आवश्यकं भवतु नाम परन्तु संशोधनस्य लाभः इत्युक्ते श्रीकृष्णस्य ऐतिहासिकत्वं वा पौराणिकत्वं जीवने परिवर्तनार्थं न उपयोगी तस्य hmm. उपयोगम् जीवने परिवा परिवर्तनम् आनेतुं न भवति भवतु ऐतिहासिक भवतु नाम परन्तु तत्र तेन किं सिद्ध्यते अस्तु अधुना साधु साधोः वचनानि पठन्तु सह एव सह एव आदव क्रियताम् अस्मिन् अपि वयसि यदि भवता तदर्थं परिश्रमं परिश्रमः न क्रियेत् तर्हि भाविनी काले पश्चात्तापः अनुभोक्तव्यं भवेत् अनुभोक्तव्यः भवेत् इत्युक्ते किं साधु वदितवान् वदित उक्तवान। उक्तवान् साधु उक्तवान् अस्मिन्नपि वयसि यदि Uh, तत्र वद तर वा उपयुज्य वक्त कि उदित तत्र उमरतीपरी संप्रसारण त्र वकार से उवित हाँ अस् एव आदौ क्रियताम् किम् उक्तवान् साधु साधु उक्तवान् तं परिश्रमम् यदि परिश्रमं न करोति तर्हि भवान् पश्चाताम् अनुभव अनुभवं करोतिः इफ् यु डोण्ट् ट्रै नौ एट् दिस् एज् अपि hmm. वयं यदि भवता तदर्थं परिश्रमं न करो न क्रियेत् इफ् यु डोण्ट् एट् दिस् एज् यु डोण्ट् डु इट् देन् लेटर् आन् युल् रिग्रेट् इट् सत्यं सत्यं अस्तु एतावत्पर्यन्तं सम्यक् हा धन्यवादः भगिनी धन्य धन्यवादः अधुना अग्रिमे अम्बिकापतिमहोदयः भवान् पठति वा विद्वान् आश्चर्येण तथा आरभ्य विद्वान् आश्चर्येण साधोः मुख, मुखमुखम् अपश्यत् hmm. साधुः कथयन् कथयम् अन्ववर्त अन्व अन्वर्त hmm. कृष्णस्य बोधनं यदि सत्त्व सत्त्वयुतम् इति भवता चिन्तय चिन्त्यते तर्हि तदनुगुणं जीवनं कृतवान् कृत क्रियताम् कृष्णः यदि ऐतिहासिकः स्यात् तदीयं बोधनं च यदि सत्त्वहीनं स्यात् तर्हि तस्य विषये चिन्तनं व्यर्थमेव तदीयं बोधनं यदि उत्कृष्टं स्यात् तर्हि तस्य ऐतिहासिकत्व विषये तद् तद्दित्वविषये विषये वा चिन्तनं विशेष <coughs> प्रयोजनाय न भवेत् hmm. अतः तस्य बोधन अतः तस्य बोधनविषये तेन बो बोधितस्य तत्त्वस्य अनुसरणविषये च आदौ चिन्तन चिन्तयतां न oh, तु तस्य yeah. न तु तस्य ऐतिहासिक ऐतिहासिकीन दी सत्यं योग्यं योग्यं हा अधुना पश्यन्तु किम् अभवत् इति हा अधुना हा एतत् साधु साधु तत्र साधु साधु वचनानि सन्ति तत्र अद्य एव परिश्रमः करोतु कस्मात् तत्र केवलं संशोधनं तु जातम्. परिश्रम हा तत् सः उक्तवान् खलु पञ्चत्रिंशत् यावत् वर्षाणि तस्य संशोधनं जातम् अधुना तत् आचरणस्य विषये आचरणस्य विषये परिश्रमः परिश्रमं करोतु तदा साधु अग्रिमे वदति पश्यन्तु किमस्ति कृष्णस्य बोधनम् यदि सत्त्वयुतम् इति भवता चिन्त्यते तर्हि तदनुगुणम् जीवनम् क्रियताम् हा ऐतिहासिकः पुरुषः वा पौराणिकः पुरुषः तस्य बोधनम् किम् कस्य बोधः कस्य उपदेशः तत्त्वदृष्ट्या तत्त्वार्थगीतायाम् तत्त्वम् किम् तत्त्वम् उक्तम् कर्मयोगस्य चिन्तनं वा भक्तियोगस्य चिन्तनं वा ज्ञानयोगस्य चिन्तनं यद् बोधनं कृष्णेन कृतं तत् अनुसृत्य तत्तम् अनुसृत्य जीवनं क्रियताम् इति अधुना यदा संशोधनस्य भवतः संशोधनस्य परिणति पिणति यदि ऐतिहासिकम सितिहासिक गच्छता काल पुष्द साध्यम होता यदि अस्त अन ये भा चिंतन तर कि मूल्य ना बोधनम तो सहीन सह ऐतिहासपुर पुरा सह ऐतिहासिकृष्ट सह आसत परंतु तोधन विषय सत्वीनम बोधनम कि मूल्यमस्तन व्यर्थम तदीय बोधनम यदि उत्कृष्ट सै तैतिहास तुष्वा चिंतन विशेष प्रयोजनाय न भे उदे बोधनं पश्यन्तु कृष्णः महान् महान् पुरुषः परन्तु तस्य बोधनम् एव तस्य परिचयम् सः आसीत् वा न आसीत् ऐतिहासिकदृष्ट्या कोऽपि पुरुषः श्रीकृष्णनाम्ना उपदेशं कृतवान् वा न तस्य किमपि प्रिय प्रयोजनं नास्ति तत् अपेक्षया एतस्य चिन्तनस्य अपेक्षया महत्त्वपूर्णचिन्तनं कस्य तत्त्वविषयकचिन्तनं हा बोधनस्य विषयकचिन्तनम् अतः तस्य बोधनविषये तेन बोधितस्य तत्त्वस्य अनुसरणविषये च आदौ चिन्त्यताम् अनन्तरं तस्य ऐतिहासिकत्वादिविषये अस्माकं जीवने भवतः यदा वदति अहं षष्ठीवर्षाणि तत् वयः इति भवान् वदति अधुना अस्यां स्थितौ बोधनस्य चिन्तनं तत्वस्य चिन्तनं महत्त्वपूर्ण न तु तस्य ऐतिहासिकत्वं वा पौराणिकत्वम् इति विषयकः चिन्तनम् अधुना अग्रिमे अग्रिमे किं वदति तत् पश्यामः धन्यवादामि कति महोदय जयन्तीभगिनी अग्रिमे पठति वा भगवद् अद्यत्वे कृष्णराम बुद्धादीनाम् अन्येषाम् महात्मनां च जीवनविषये बहुधा संशोधनानि प्रचलन्ति किं तानि hmm. सर्वाणि व्यत् व्यर्थानि hmm. सः सः दृष्ट्वा उक्तवान् सः hmm. पृष्टवान् अद्यत्वे hmm. कृष्ण क्रिष्न, कृष्णस्य विषये रामस्य विषये बुद्धस्य विषये सर्वेषां विषये अन्य, अन्ये अन्येषां महात्मानां विषये जीव जी, महात्मानम् जीवनस्य विषये बहुधा संशोधनं कृतवन्तः प्रचलन्ति hmm. स्म एव प्रचलन्ति स्म एव किं तानि सर्वाणि व्यक्तानि इति सः hmm. पृष्टवान् संशोधनस्य किमपि मूल्यं नास्ति वा इति सः पृष्टवान् Mm. Mm. साधु तद्विषये अधिकं वक्तुं न इच्छामि इति उक्तं खलु मया साधु उक्तवन्तः तद्विषये अहं न अधिकं न वक्तुम् इच्छामि इति अहम् mm. उक्तवान् खलु इति mm. महात्मानम् mm. महात्माना जीवितविषये एव निरन् निरन्तर निरन्तरपरिश्रमात् अपि तदीयबोधनानि अवगत्य तदनुगुणं जीवन तदनुगुणं जीवनात् एव अस्मा अस्मादादीनां जीवनं सार्थकं भवेत् इति तु मम चिन्तनम् इति वदन्न। तस्य विषये अहं किमपि वक्तुं न इच्छामि mm -hmm. महात्मानां जी, जी जीव जीवितविषये जीवनस्य अर्थम् ऐ मीन् जी जीवितविषये एव निरन्तरपरिश्रमात् अपि तदीय बोधनस्य विषये वयं स्वीकुर्मः तदनुगुणम् आचरा जीवनम् अस्माकं जीवनमपि भवितुम् अर्हति इति सा दत्तम् अस्माकं जीवनमपि भवेत् इति चिन्तनं कुर्मः इति सः साधु सः साधु चर्चान् उपसंहृतवान् hmm. तदा तदनन्तरं सः सा, साधु किमपि न वक्तुम् इच्छति तावदेव सः उक्तवान् hmm. hmm, साधु hmm. चर्चां तस्य विषये किमपि चर्चां न कर्तुम् इच्छति स्म साधोः hmm. hmm. hmm. दृष्ट्या महत्त्वपूर्णं किमस्ति ये ये hmm. सत्पुरुषाः सन्ति hmm. तेषाम् ऐतिहासिक पौराणिकपेक्षा सत्गुणा बोधन से उपदेश चिंतन होस्कं जीवन तुसम हाँ विचाराणु यदा भव जीवन से साक्यम होती कल्याण प्रद्याण प्रदम इति विषयक hmm. कदा भवति तत्र hmm. अनुसरणं विचाराणां hmm. वा तत्त्वानाम् अनुसरणम् एव इति अस्ति hmm. हा इत्युक्ते yeah. hmm. कथानाम् आचरणम् एव श्रेष्ठम् hmm. प्रसन्तः hmm. किमस्ति वृथा तत्र कलहानी सन्ति हा जनेषु hmm. अपि वयं सर्वे दृष्टवन्तः वृथा कलहानि अस्ति वा सर्वेषां सर्वेषु धर्मेषु एतादृशानि कलहानि वृथा वृथा hmm. एवं सर्वं प्रचलन्ति एव परन्तु hmm. तस्मात् महत्त्वपूर्ण किमस्ति विचाराणाम् आश् आच, आचरणं विचाराणाम् hmm. hmm. तत्र उपयोजनं कृत्वा अस्माकं जीवनं जीवने hmm. अस्माकं साफल्यम् आगच्छेत् hmm. इति साफल्यं भवेयुः श्रेष्ठ आचरण श्रेष्ठ संशोधन से श्रेष्ठता निश्चय अस्सी तत्सर्चा चेहर तदीप महत्वपूर्ण पर सदर्भ धुवा कल अन्गेण तक्षोभक विचारा केचन जना mm -hmm. वज वक्तुमिच्छति वा किमपि किमपि अन्विष वदतु यद्यपि अस्माकं पूर्वजनाः महात्मानः आचरति तद् वयमपि अस्माकं ऐ मीन् ऐ मीन् न शुल् एकनिमिषि Uh, Close your uh, eyes and follow the rules, I mean follow the uh, um, uh, elders, no? So, what do you think? No, what do you think? No, what do you think? Atmasam, mahatmanahava, sheshtahava, purvajanahava, ashrati, that's why I am happy ashramaha. Close your eyes and follow the elders. यत् श्रेष्ठः तद् एव इतरो जनाः सह सयत् प्रमाणं कुरुते लोक श्रीकृष्णः उक्तवान् खलु अस्माकं मनसि चिन्तनं भवति सत्यं इत्युक्ते तत्र अत्र रेशनल् थिन्किङ्ग् तत्तु आवश्यकं तत्र पश्यन्तु अस्माकं यत् येन मार्गेण वयं सर्वे अधुना प्रेरिताः तेन hmm. किं भवति अस्माकम् अध्ययनम् अनन्तरं भगवद्गीतायां यानि यानि वचनानि सन्ति तेषाम् hmm. अवगमनं दृष्ट्या hmm. अपि वयम् अवगमनस्य hmm. प्रयत्नं सर्वे कृत्वा कुर्मः तत्र विचाराणाम् आदानप्रदानं तेन किं भवति hmm. तत्र hmm. मार्गस्य विषये किमपि सन्देहः नास्ति hmm. hmm. निःसं मार्गं तु मार्ग अस्माकं मार्ग उत्कृष्टमार्ग इति वक्तुं शक्नुमः परन्तु तत्र बृहा चर्चां मा mm. भवेत् इति साधुमहोदयः mm. उक्तवान् mm. आसीत् तत् ऐतिहासिकत्वं कथं सिद्ध्यति इति mm. अस्माकं विषयः mm. न भवेत। अधुना mm. एषः महोदयः षष्ठिवर्षाणि अनन्तरं तत् पञ्चत्रिंशत् वर्षाणि तस्य संशोधनं जातम् अधुनापि सः निष्कर्षं प्रति न नास्ति निष्कर्षं हस्ते किमपि नास्ति अधुना विचाराणां चिन्तनम् आरम्भे मिलित्वा इति अस्माकं पूर्वाः अपि तावदेव अनुमानं विहाय शब्दं वेदमेव प्रमाणम् अस्ति खलु बेनि तदेव वयमपि अनुचरामः खलु तावदेव उत्तमं धन्यवादः धन्यवादः अन्य कस्य अपि चिन्तनम् अन्येषामपि वाक्यद्वयं त्रयं वदतु अनन्तरं वयं स्मविषयकः अभ्यासं प्रति गच्छामः रमा भगिनी अस्ति नमो नमः रमा भगिनी महात्मानात्माना जीवनं आत्मकथा विषये पठ पठतु वि, विचारण विचार चिन्तनं करोतु च आचरणम् आचरणं करोतु सत्यम् एषः तु महत्वपूर्णः अंशः स्वामी विवेकानन्द तत्र तस्य एव जन्मदिवसः अभवत् अधुना तत् हा तदा तस्य जीवने स्वामिविवेकानन्दस्य जीवने यदा सः शिकागो तत्र गतवान् आसीत् तत्र याया या समस्याः तस्य समस्यायाः विषये पठन्तु तस्य आचरणं विषये अपि पठतु महात्मानः जीवनविषये तस्य वयं वदामः खलु तेषां लैफ् स्टोरि इति तत् कथानकम् अपि अतीवमहत्त्वपूर्णं बोधप्रद एव भवति ते अपि सर्वं कष्टं सहितवान् आसीत् तत् अस्माकं प्रेरणादायी भवेत् तेषां चरित्रमपि योग्यं योग्य सम्यक् विचारः हा धन्यवादः वदतु रमा भगिनी क्षम्यतां भगिनि विलम्बेन आगतवती अतः परन्तु कथां श्रावितवती वा भवती तत् कथायाः श्रवणं न राधा भगिनी वदति वा आं भगिनि मम जीवनं कथम् अनुसरणीयम् एतद् कृते महान् पुरुषाणां जीवनं संशोधनं कृत्वा अहं जानामि तेन मार्गदर्शनमपि अभवत् ते मम जीवनं सम्यक् जीवित सत्यं सत्यं इत्युक्ते का चर्चा तस्य सत्यता वा असत्यता ओथेण्टिसिटि विषये तत् न भवेत् आम् आम् परन्तु तत्त्वतः तेषाम् अनुसरणम् अस्माभिः करणीयम् इति सत्यं सत्यम् उत्तमम् उत्तमम् अन्यकोपि आम् आम् आम् तत्त्वस्य आचरणम् अनुसरणं सत्यं सत्यं योग्यम् अस्तु आ, अस्तु अधुना गच्छामः अभ्यासं प्रति अन्यकोपि वक्तुम् इच्छति वा आगस्ट् ah uh, kshamatam bangini kim karaniyam tato kathaya vishe kim api vaktumi chhati va ah um i understand uh only the general idea that seems to be that we have to to have a correct notion about what we have to distinguish and what we I don't need to, to classificate and, mm. but mm. I have to do a little more, mm. Mm. the Katha. Satyam, Satyam. Astu astu, Nishayana. Astu, Chintamastu. Astu, mm. Uttama Masri. Uh, aduna, Abhyasam Prati Gachama. Adya, Sumo Itivayam Pathita Vantaha. Huh? Aduna, uh, Kani Chana Vaktyani Vadami. Hmm? Ekam, ekam. तस्य परिवर्तनं कथं भवेत् इति तत्र स्म निष्कासयत स्म योजयत् इति इत्युक्ते यदा अहं स्म वाक्ये वदामि तद् भवन्तः सर्वे स्म एतस्य निष्कासनं कृत्वा वाक्यपरिवर्तनं कुर्वन्तु यदा स्म इति मया योजिता तदा पश्यन्तु तत्र भूतकाले अहम् उक्तवती तदा स्म एतस्य योजनं भवन्तः सर्वे कुर्वन्तु इति शृण्वन्तु मौखिकदृष्ट्या एव अहं चिन्ति चिन्तितवती अद्य हा पुरा छात्राः पुरा छात्राः गुरुकुले वसन्ति स्म पुरा एकं करोमि अत्र अहं किं करोमि पुरतः तत् तालिकां यत् अस्ति अस्माकम् एकनिमिषम् अस्माकं दृश्यते वा तालिका अस्ति अस्माकं खलु तत् तत् स्थापयामि हा दृश्यते वा दृश्यतु हा अस्तु हा पुरा छात्राः गुरुकुले वसन्ति स्म स्टार्ट् फ्राम् भारतमहोदय भारतमहोदय परिवर्तनं करोतु पुरा छात्राः गुरुकुले वसन्ति स्म अधुना स्म एतस्य निष्कासनं भवेत् वदतु पुरा छात्राः गुरुकुले अवसन् तत्र छात्राः सन्ति छात्राः सन्ति अतः प्रथमपुरुषे बहुवचन् बहु सम्यक् उत्तमम् उत्तमं इतोपि एकं पृच्छामि सः भ्रमणम् अकरोत् सः भ्रमणम् अकरोत् ओके सः भ्रमणं करोति स्म उत्तमं करोति स्म इत्युक्ते अकरोत् वसन्ति स्म इत्युक्ते अवसन् बहु सम्यक् उत्तमम् अस्ति उत्तमं हा हा अधुना राधाभगिनी राधाभगिनी तौ तौ अपठताम् अपठतां तौ अपठताम् तौ पठतः स्म उत्तमम् उत्तमम् उत्तमम् अधुना अहम् अहं वदामि स्म उत्तमम् उत्तममस्ति अग्रिमे अम्बिकापतिमहोदये भवान् वदति वा अगच्छम् अहम् अगच्छम् अहं गच्छामि स्म उत्तमम् अधुना स्म अहम् अपठाव पुनः एकवारं शृणोतु आवां पठावः स्म तत्र आवामिति अस्ति आवां वयम् आवां द्विवचनानि आवां पठावः स्म पठावः स्म अहं पट अपठाव आम् आवाम् अपठाव सम्यक् अधुना वयम् अपठामः वाक्यमस्ति वयम् अपठामः अधुना स्म एतस्य योजनां करोतु वयम् अपठामः वयम् अपठाम इति पठामः स्म उत्तमं वयं पठामः स्म उत्तममस्ति उत्तममस्ति हा अधुना अग्रिमे जयन्ति भगिनी जयन्ती भगिनी पश्यन्तु यदा यदा अहं छात्रः आसम् तदा प्रतिदिनं पाठशालाम् अगच्छम् Hmm. अधुना hmm. यदा पश्यन्तु यदा अहं छात्रः hmm. आसम् तदा hmm. प्रतिदिनं hmm. पाठशालाम् hmm. hmm. अवगच्छम् hmm. अस्तु बेनि hmm. यदा अहं छात्राः अस्मि स्म तदा अहं hmm. प्रतिदिनं Uh, पाठशाला पाठशालां गच्छामि स्म उत्तमम् उत्तमं hmm. hmm. okay. hmm. यदा अहं यदा अहं hmm. hmm. बालः बालः अस्मि स्म hmm. तदा काव्यं लिखामि hmm. स्म hmm. okay. यदा अहं बालाः बाला आसं तदा अहं काव्यं आलि आलिखत् आलिकाम् आलिखम् आम् अलिखम् उत्तमम् उत्तमम् अलिखत् सत्यं योग्यं धन्यवादः धन्य धन्यवादः अधुना अग्रिमे अस्ति अगोस्ट् महोदय अगोस्ट् महोदय अस्ति वा पृच्छामि ओगस्ट् महोदय तौ <manyi> तौ व्याकरणम् अपठताम् तौ व्याकरणम् अपठताम् <manyi> व्याकरणं पठतां तौ hmm? व्याकरणम् स्म तत्र अपठताम् इति पुरुषः कः वचनं विषये वदतु अपठतां कृ कुत्र दृश्यते प्रथमपुरुषद्विवचनान्तं <laughs> तौ व्याकरण अपठताम् अधुना अस्माकं कार्य तत्र किमस्ति स्म यदा न दृश्यते तदा स्म एतस्य योजनां करणीया योजना करणीया अधुना अपठताम् तत्र भूतकालम सूचयति तौ व्याकरणम् अपठताम इत्युक्ते तौ व्याकरणं पठति पठतः पठन्ति तौ व्याकरणं पठतः स्म एवं भवति खलु अगस्तु महोदय स्पष्टं वा द्विवचनान्तं प्रथमपुरुषद्विवचनं पठति पठतः पठन्ति खलो, हा, तौ व्याकरण पठत स्म इतनालय अगछ अजुना योजना भोजनालयं Uh, अगच्छम् इति उक्तवती अगच्छम् भोजनालयम् गच्छामि भोजनालयम् गच्छामि अग्रिमे गच्छामि गच्छामि स्म आम् गच्छामि स्म एतस्य योजनेन किं भवति पश्यन्तु म इस् एडिक्ट् टु द प्रेसेण्ट् टेन्स् वर्क् एण्ड् इट् गिव्स् द सेन्स् आफ़् पास्ट् टेन्स् इति अपठम् इत्युक्ते पठामि स्म अगच्छम इत्युक्ते गच्छामि स्म अधुना स्पष्टमस्ति अगस्टमहोदय आम् इतोपि एकं करोतु कृपया फलानि ते फलानि अखादन ते फलानि अखादन् अखादन् अधुना अधुना स्म एतस्य योजना इत्युक्ते लट्लकाररूपम् अधिकं स्म ते अखादन् इति वाक्यं परिवर्तनं करोतु आम् बहु सम्यक् ते फलानि खादन्ति स्म उत्तममस्ति उत्तमं योग्यमस्ति धन्यवादः धन्यवादः अधुना रमा भगिनी वक्तुम् इच्छति वा भा? रमा भगिनी अधुना वदतु सा पत्रिकाम् अपठत् सः पत्रिकां पठति स्म अधुना ह ते गृहात् बहिः ते गृहात् बहिः अभ्रमन् अभ्रमन् ते गृहात् बहिः अभ्रमन् इति भ्रमति स्म एकवारं पुनः एकवारं ते गृहात् बहिः अभ्रहात् बहिः भ्रमति स्म बहिः भ्रमति स्म पुनः एकवारं ते गृहात् ते गृहात् बहिः अभ्रमन् ते गृहात् बहिः भ्रमति स्म भ्रमति अस्तिवा वा ते इति अस्ति ते इत्युक्ते ते गृहात् बहिः अभ्रमन् अत्र तालिकां पश्यतु अपठन् अभ्रमन् इत्युक्ते पुरुषः कः वचनं किम् इन् इन् आम् आम् तत् कुत्र आज आगच्छति पुरुषः कः बहु बहु बहुवचनम् अतः अस्तु भगिनी अस्तु वदतु अधुना योग्यं दी दी ते गृहाद् बहिः ते गृह गृहाद् बहिः भ्रमन् ्रमन् अभ्रमन् तदा लट्लकारे अह अभ्रमन् एतस्य लट्लकारे भ्रमन् स्म भ्रमन्ति स्म एवं खलु वदति वदतः वदन्ति पठति पठतः पठन्ति भ्रमति भ्रमतः भ्रमन्ति स्पष्टमस्ति वा भगिनि स्पष्टमस्ति अस्तु भगिनि हा अधोमि इतोपि एकम् अस्तु महिलाहा महिलाः ताः महिलाः भोजनम् अपचन् ताः महिलाः भोजनम् अपचन् ताः महिलाः भोजन भोजनम् अपचन् भोजनम् पचति स्म पचति इति आगच्छति वा ताः ताः महिलाः सा ताः पचति इति आगच्छति वा न भगिनि महिलाः इति अस्ति चेत् बहुवचन बहुवचनानि पचति इति भवति वायम् बहुवचनस्य कृते पचति किं भवति पचन्ति इति भवति रमा भगिनी पचति पचतः पचन्ति इति खलु अस्तु भगिनी लट्लकाररूपाणि कथं भवति पचति पचन्ति वदन्ति वदति वदन्ति ताः महिलाः भोजनं पचन्ति स्म अस्तु भगिनि अस्तु बहिनी स्पष्टमस्ति अस्तु अस्तु अधुना पुस्तकम प्रति गच्छामः तत्र अस्ति हामिकाः हा, अनन्तरं यथोदाहरण रिक्तस्थानानि पूरयत तत् हा अत्र हा आरम्भं कुर्मः हा आ, हा भारतमहोदय आरम्भं करोति वा यथोदाहरणं तत् आरभ्य आं भगिनि यथोदाहरणरिक्तस्थानानि पूरयत बालकः पठति स्म द्विवचनं बालकौ पठतः स्म बहुवचनं बालकाः पठन्ति स्म शिशुः खेलति स्म शिशौ दीर्घ द्विवचनान्त इत्युक्ते दीर्घौ शिशु शिशु खे, खेल, खेलतः स्म आम् उत्तमं बहुवचने किं भवति शि, शिशौ शिशवः okay. इति शिशवः शिशुः शिशु शिशवः शिशवः खेलन्ति स्म आम् उत्तमम् अग्रिमे पति स्म मुनिः जप तस्य द्विवचनं कथमस्ति मुनि यथा शिशुः शिशुः जपति मुनि मुनि मुनि जपतः स्म उत्तमं बहुवचने मुनौ मुनयः मुनयः जपन्ति स्म योग्यं वधू समाचारं पठति स्म वध्वो आं वध्वौ वध्वौ वध्वो समाचारं पठतः स्म वध्वः समाचार समाचारं पठन्ति स्म <स्था> उत्तमस्ति धन्यवादः उत्तमम् उत्तमं पर्याप्तं अग्रिमे राधा भगिनी पञ्चतः आरभ्यं करोति वा अहं ध्यायामि स्म तथा आरभ्यं करोति वा आं भगिनि स्म आवां ध्यायावः स्म वयं ध्यायामः स्म भवान् अटति स्म भवन्तौ अटतः स्म भवन्तः अटन्ति स्म योग्यम् एषः पाठं स्मरति स्म एषौ पाठं स्मरौ अस्ति वा एतौ इति एषः एतौ एते इत्यस्ति स्मरतः स्म एतौ एतौ पाठं स्मरतः स्म एते पाठं स्मरन्ति स्म योग्यम् अग्रिमम् अग्रिमे भवती विषयं चिन्तयति स्म भवत्यौ विषयं चिन्तयतः स्म भवत्यः विषयं चिन्तयन्ति स्म उत्तमं योग्यं पर्याप्तम् उत्तममस्ति धन्यवाद वाक्यत्रयमेव हा जयन्ती भगिनी करोति वा अन्तिमं तत्र वाक्यत्रयमेव सः सुखं लभते तौ सुखं लभेते ते सुखं लभन्ते अत्र किमस्ति आत्मनेपद्यरूपाणि आत्मनेपद्य आत्मनेपद्यरूपाणि अपि तथैव भवति हा करोतु अधुना सा मोदते स्म औ सारि सा एकनिमिषं ते थे थे थे ते मोदेते स्म ताः ताः मोदन्ते स्म अहम् अहं याचे आवां याचामहे स्म वयं याच याचावहे स्म याचामहे स्म वयं याचामहे स्म याचे याचावहे याचामहे याच् याच इत्युक्ते किं याच इत्युक्ते किं यच्छति इति उप उभयपदि परन्तु तत् अर्थ अर्थ किं तस्य अर्थ स्वीकरोति ऐ मीन् याचनाकरणाचनाम् पृच्छति दानं याचति इति आम् आम् आम् धनं याच इच्छति धनम् इच्छति धनस्य याचनां करोति याचनां तत्र मोद इत्युक्ते किं भगिनि आनन्दं सुखम् इति सर्वं योग्यं योग्यं सम्यक् अस्ति सम्यक् धन्यवादः आमां परन्तु तत् कथमस्ति भगिनी तत पूरा अधुना mm. तत् बेगिङ्ग् इति वयं वदामः परन्तु तदा भिक्षुकः इत्युक्ते तत्र oh, okay. भिक्षां स्वीकरणं तत्र okay. तादृशी तत्र अधुना बेगिङ्ग् इत्युक्ते अधुना जनं जनेषु तत्र बेगिंग इत्युक्ते सम्यक् कार्यम् इति वयं न चिन्तयामः इति खलि ah, तत् बेगिङ्ग् ah, इत्युक्ते तत् कार्यं नास्ति परन्तु पुरा तत् याचकः वा तत्र okay. हा अत्र किमस्ति एकः विषयः पश्यन्तु याचकः तत्र दानार्थे सम्प्रदानचतुर्थी विमक्ति इत्युक्ते hmm. पुरा यः कोऽपि धनिकः मनुष्यः यः कोऽपि दानं कर्तुं सक्षमः आसीत् सः uh -huh. किं चिन्तयति ओ अधुना मम पुरतः याचकः अस्ति अहम् उपकृतः अस्मि uh -huh. uh -huh. अहम् उपकृतः अस्मि इत्युक्ते तत्र विधात्रा मया uh -huh. तत्र अवसरं लभ्यते तत्र दानाय अवसरं लभ्यते दानम् uh -huh. इति पवित्रकार्यं पुण्यकार्यम् तत् याचक इत्युक्ते तत्र इत्युक्ते इति डिग्निफैड् वर्ड् अस्ति तत्र बेगिंग इन न भिक्षामपि हा भिक्षा अपि बहुषु स्थलेषु तत्र छात्राः भिक्षां तत्र ओम् भवति भिक्षां देहि इति तेन किं भवति भिक्षां स्वीकृत्य छात्राः अध्ययनं कुर्वन्ति स्म तस्मिन् काले हा तत् भिक्षामा याचना इति अन्येषु किमर्थं सम्प्रदानम् इति चतुर्थी विभक्ति तद् दाना दानस्य कृते सम्प्रदायम् इत्युक्ते इदं न मम मम मया दानं क्रियते इत्युक्ते तत्र अधुना एतत् सर्वं मम नास्ति आ, आँ. तत्र ईश्वरेण माम इति अवसरम् ईश्वरस्य कृपया एव माम् एवम् अवसरं प्राप्यते आँ. मया तत् अवसर इत्युक्ते अहम् उपकृता अस्मि इति भावमि दानस्य अवसरः अतः अहम् उपपुण्यतः पुण्यकर्मस्य चिन्तनम् अत्र पुण्यकर्मणः चिन्तनम् इति अतः तत्र याचकः भिक्षुकः अत्र ए एतेषां पदानां तत्र योजना दृश्यते साम्प्रतकाले तादृशी स्थितिः नास्ति तत् <tati> याचना इत्युक्ते तत् प्लीडिङ्ग् इति वयं वदामः खलु तत् न योग्यमिति वयं चिन्तयामः तत् इति अस्तु सम्यक् हा अधुना पश्यन्तु अग्रिमे तत् क्रोधपिशाच अग्रिमे बुधवासरतः वयम् आरम्भं कुर्मः क्रोधपिशाच उत्तमा कथा उत्तमा कथा तस्य पठनम् अग्रिमे वर्गे वयं कुर्मः सर्वेषां धन्यवादाः स्वस्तिप्रजाप्य परिपालयन्तां न्यायेन मार्गेण महीं महिषाः गोभ्राह्मेणेभ्य सुममस्तु नित्यम् लोका समस्ता सुखिनो भवन्तु धन्यवादः धन्यवादः अनेके धन्यवादाः सर्वेषां पुनर्वादः धन्यवादः सङ्क्रान्ति सङ्क्रान्तपर्वणः शुभाशय सर्वेषां धन्यवादः